द्व्यशीतितमोऽध्यायः वैशम्पाय न उवाच ययातिम् स्वपुरम् प्राप्य महेन्द्रपुरसन्निभम् प्रविश्यन्तः पुरम् तत्र देवयानीम् देवयान्याश्चानुमते सुताम् वृषपर्वणः अशोकवनिकाभ्यासे गृहम् कृत्वा न्यवेशयत् वृताम् दासीसहस्रेण शर्मिष्ठाम् वार्षपर्वणिम् वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् अशोकवनिकामध्ये देवयानी समागता शर्मिष्ठयासा क्रीडित्वा रमणीये मनो रमे तत्रैव ताम् तु निर्दिश्य राज्ञा सहययो गृहम् एवमेव प्रीत्या मुमुदे बहुकालतः देवयान्या तु सहितः नहुषात्मजः विजहारबहू नब्दान् देववन्मुदितः ऋतुकाले तु सम्प्राप्ते देवयानीवराङ्गना लेभे गर्भम् प्रथमतः कुमारम् च कते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणि दर्शयौवनम् प्राप्ता ऋतुम् सा चान्वचिन्तयत् शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारभूषिता अशोकशाखामालम्ब्य सुफुल्लैस्तवकैर्वृताम् आदर्शे मुखमुद्वीक्ष्य भर्तृदर्शनलालसा शोकमोहसमाविष्टा वचनम् चेदमब्रवीत् अशोकशोकापनुद शोकोपहत चेतसाम् त्वन्नामानम् कुरुक्षिप्रम् एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ऋतुकालश्च सम्प्राप्तो न च मेऽस्तिपतिर्वृतः किम् प्राप्तम् किम् नु कर्तव्यम् किम भवेत। वा कृत्वा कृतम् देवयानी प्रजातासौ वृथाहम् प्राप्त यौवना यथा तया वृतो भर्ता तथैवाहम् वृणोमितम् राज्ञा पुत्रफलम् देयमिति मे निश्चिता मतिः अपादानीम् स धर्मात्मा यान्मे रहः अथ निष्क्रम्य राजासौ तस्मिन् काले यदृच्छया अशोक वाकाभ्या शर्मषा प्रेक्ष्य तेकम रही दृष्ट् शर्म चारुभासीनी प्रत्युदगम्याजलि राजानं वाक्यम्रवीत शर्मीठोवाच सोमस्ेन्द्र सेवा यम वर्ण से चव वनाहुुष गृह कस्त्रिय द्रषुमजन शील झन्ेत्त्थमांसदा साचे प्रसाद ऋतुम देहि न राधिप यतिर्वाच वेद्मित्त्वाम् शीलसम्पन्नाम् दैत्यकन्नामनिन्दिताम् रूपञ्च तेन पश्यामि सूच्यग्रमपि निन्दितम् अब्रवीदुशना काव्यो देवयानीम् यदावहं वहम् नेयमाह्वयितव्याते शयने वार्षपर्वणि शर्मिष्ठोवाच न नर्मयुक्तम् वचनम् हि न स्त्रीशुराजन्न विवाहकाले प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि पृष्टम् तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितम् नरेन्द्र एकार्धतायाम् तु समाहितायाम् मिथ्या वदन्तम् त्वनुतम् हिनस्ति ययातिर्वाच राजा प्रमाणम् भूतानाम् सनश्येतनुषावदन् अर्धकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे शर्मिष्ठो समावेतौ मतौ राजन् पतिः यः पतिः समम् विवाहमित्याहुः सङ्ख्या मे पतिः सः दत्तास्मि काव्येन देवयान्या महर्षिणा पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च या चितॄणाम् ददासि च वाहिकम् दानमित्युक्तम् न शरीराश्रितम् नृप दुष्करम् पुत्रदानम् च आत्मदानम् च दुष्करम् शरीरदानात् तत्सर्वम् दत्तम् इत्युक्त्वा नगरे राजम् स्त्रिकालम् घोषितम् त्वया अनृतम् तत्तु राजेन्द्र वृथा घोषितमेव च तत्सत्यम् कुरु राजेन्द्र यथा वैश्रवणस्तथा ययातिरुवाच दातव्यम् याचमानेभ्य इति मे व्रतमाहितम् त्वम् च याचसि माम् कामम् ब्रूहि किम् करवाणि अधर्मात् पाहि माम् राजन् च प्रतिपादय त्वत्तोपत्यवती लोके चरेयम् धर्ममुत्तमम् त्रय एवाधना राजन् भार्यादासस्तधा सुतः यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् देवयान्या भुजिष्यास्मि पश्या च तव भार्गवी स चाहञ्च त्वया राजन् भजनीये भजस्व माम् वैशम्पायन एवमुक्तस्तु राजा स तथ्यमित्यभिजिज्ञिवान् पूजया मास प्रत्यपादयत् समागम्य शर्मिष्ठाम् यथाकाममवाप्य च अन्योन्यञ्चाभिसम्पूज्य जग्मतुस्तौ यथागतम् तस्मिन् समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी हासिनी लेभे गर्भम् प्रथमतस्तस्मान् नृपति सत्तमात् प्रजज्ञे च ततः काले राजन् राजीव लोचना इति श्रीमहाभारते आदिपर्वणि सम्भव पर्वणि द्व्यशीतितमोऽध्यायः